संहितापाठम् त्यमूषुवाजिनं देवयूतं सहावानं तरुतारं रथानाम् अरिष्टमेमिं पृतनायमाशुं स्वस्तये तार्क्ष्यमिहाहुवेम त्यमूषुवाजिनं सहावानं तरुतारं रथानाम् अदिष्टनेमिं पृतनायमाशुं स्वस्तये तार्क्ष्यमिहाहुवेम नित्यमूषु वाजिनं देवयूतं सहावानं तरुतारं रथानाम् अदिष्टनेमिं पृतनायमाशुंस्वस्तये तार्क्ष्यमिहाहुवेम